मार्कण्डेयपुराणम् अध्यायं 122 अण्ड् ट्वेन्टि टु अवीक्षिचरितवर्णनं मार्कण्डेय उवाच अथ सा वीक्षितो मादा वीरा वीरप्रजावती पुण्ये सनिसमाहूय प्राक्पुत्रमवीक्षितम् पुत्राहमभ्यनुज्ञादा तव पित्रा महात्मना उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः स चायत्तस्तवपि दुःत्वया साध्यो मयापि च प्रतिज्ञादे त्वया पुत्रस्ततस्तत्र यदाम्यहम् द्रव्यसार्धमहाकोशात् तव दास्याम्यहं पितुः धनं ते पितुरायत्तमनुज्ञादास्मिते न च क्लेशसाध्यो मदायत्तसहिश्रेयो भविष्यति साध्यो भवेद्वा स साध्यो ह्यन्यथा वा दुःखसाध्यो भविष्यति तत्त्वं प्रतिज्ञां कुरुषे यदि पुत्रात्र चैवते तदै तदैस्तदह वाप्स्ये कथ्यदां यन्मदं तव अवीक्षिदुवाच वित्तं मे पितुरायत्तं मत्स्वामित्वं न तत्र वै यन्मच्छरीरनिष्पाद्यं तत्करिष्ये त्वयोदितं किमिच्छकं व्रतम् आदर्निश्चिन्ता भवनिर्व्यथा राज्ञापित्राभ्यनुज्ञातं यदि वित्तेश्वरेण मे मार्कण्डेय उवाच तदस्सा सा राजमहिषी तद्दुरतं समुपोषिता यथोक्तं साकरोत्पूजां राजराजस्य संयता निधीनामप्यशेषाणां निधिपालगणस्य च लक्ष्म्याश्च परया भक्र्या यदवाक्कायमानसा विविक्रे दु गृहस्थोऽयमथराजा करन्धमः आसीन उक्तसचिवैर्निधिशास्त्रविशारदैः सचिवा ऊचुः राजन्वय परिणदं तवै सदो महीं येकस्ते तनयो वीक्षित्य क्रदारपरिग्रहः अपुत्रः सचते निष्ठां यदा भूपगमिष्यति तदा हि पक्षं पृथिवी निश्चिदं तव वंशक्षयस्ते भविता पितृपिण्डोदकक्षयः ये दन्महत्तेभयं क्रिया हान्या भविष्यति तस्मात् कुरु तथा भूप यथा ते तनयः पुनः करोति सततं बुद्धिं वितॄणामुपकारिणीम् मार्कण्डेय उवाच एतस्मिन्नन्तरे शब्दं शुश्राव जगदीपतिः पुरोहितस्य वीराया गददोह्यर्धिनं प्रदि क किमिच्छदिदुत्साध्यं कस्य किं साध्यतामिति करन्थमस्य महिषी किमिच्छिगमुपोषिता राजपुत्रोऽप्यवीक्षित्तुत्वा पौरोहितं वचः प्रत्युवाचार्थिनः सर्वान् राजद्वारमुपागतान् मया साध्यं शरीरेण यस्य किञ्चिद्ब्रवीतु सः मम मादामहाभागा किमिच्छिगमुपोषिता शृण्वन्तु मेऽधिनः सर्वे प्रतिज्ञातं मया तदा किमिच्छद ददाम्येष क्रियमाणो किमिच्छिके मार्कण्डेय उवाच ततो राजा निशम्यै दद्वाक्यं पुत्रमुखाश्रुतं समुत्पत्त्या ब्रवीत्पुत्रमहमर्थी प्रयच्छ मे अवीक्षिदुवाच दातव्यं जन्मया तादभवदे तत्ब्रवीहि मां कर्तव्यं दुष्करं वादे साध्यं दुःसाध्यमेव वा राजो वाचा यदि सत्यप्रतिज्ञस्त्वं ददासि च किमिच्छकं पौत्रस्य दर्शयमुखं ममोत्सङ्गगदस्य तदवीक्षितुवाच अहं तवैकस्तनयो ब्रह्मचर्यं च मे नृप न मे पुत्रोऽस्ति पौत्रस्य दर्शयामि कथं मुखम् राजोवाच पापायब्रह्मचर्यं ते यदिदं धार्यदेत्वया त्वया तस्मात्त्वं मोचयात्मानं मम पौत्रं च दर्शय अविक्षिदुवाच विषमं स्यान्महाराज यदन्यत्तत्समादिश वैराग्येण मयास्त्यक्तस्त्रीसम्भोगस्तथास्तु सः राजोवाच बहुभिर्युध्यमानानां दृष्टो वै वैरिणां जयः तत्रापि यदि वैराग्यमुपैषि तदपण्डितः किं वा नो बहु ब्रह्मचर्यं परित्यज मा दुस्त्वमिच्छया वक्त्रपौत्रस्य मम दर्शय मार्कण्डेय उवाच यदा स बहुशस्तेन प्रोक्तः पुत्रेण पार्थिवः नान्यत् प्रार्थयदे किञ्चित्तदा पुत्रो ब्रवीत्पुनः दत्त्वा किमिच्छकं तुभ्यं प्राप्तोऽहं तादसङ्कटं तत्करिष्यामि निर्लज्जो भूयोद्धारपरिग्रहं स्त्रिया समक्षं विजितः पतिदो धरणीतले स्त्रीपदिर्भविदा भूयस्तादैस्तदधिदुष्करं तथापि किं करोम्येष सत्यपाशवशङ्गदः करिष्यामि यथा धं भुज्यतां निजशासनम् इति श्रीमार्कण्डेयपुराणे विक्षिच्छरितं नाम ओ